महावाक्यरत्नावले चतुर्दशं प्रकरणम् अथ नपुंसकलिङ्गस्वरूपवाक्यानि एकोनचत्वारिंशत् अन्यद् एव तद्विदितादथो अविदितादधे यत्तदद्रेष्यं ग्राह्यं गोत्रं अवर्णम् अचक्षुश्रोत्रं तद् अपाणिपादम् आशेद एकमे सदैव सौम्येदमग्र आसीदेकमेवाद्वितीयम् अस्थूलमनण्स्वम् अदीर्घम् अलोहितम् अस्नेहमच्छायम् अतमो अवायवनाकाश असङ्गम् अरसम् अगन्धम् चक्षुष्कं अश्रोत्रं अवाग्म् अम... मनो अतेजस्त अप्राणम् अमुखम् अमात्रम् अनन्तरम् अबाह्यम् नित्यम् शुद्धम् मुक्तम् सत्यम् सूक्ष्मम् परिपूर्णम् अद्वयम् सदानन्दचिन्मात्रम् पुरतः सुघातम् अद्वैतम् अचिन्त्यम् अलिङ्गम् स्वप्रकाशमानन्दघनम् एतद्ध्यशब्दम् अस्पर्शं रूपं रसम् अगन्धमवक्तव्यम् अदातव्यम् अगन्तव्यम् अविसर्जितव्यम् अनान्दयितव्यम् अनन्तव्यम् अबोद्धव्यम् अमनहङ्कर्तयितव्यम् अचेतयितव्यम् अप्राणयितव्यम् अपानयितव्यम् अव्यानयितव्यम् अनुदानयितव्यम् असमानयितव्यम् अनिन्द्रियम् अविषयम् अकरणम् अलक्षणम् असङ्गम् अगुणम् अविक्रियम् अव्यपदेश्यम् असत्त्वम् अरजस्कम् अतमस्कम् अमायम् अभयम् अपि औपनिषदम् एव सुविभातम् सकृद्विभातम् पुरतोऽस्मात् सुविभातम् अद्वयम् अनिर्वचनेयं सर्वव्यापकं सर्वव्यापकम् निरतिशयानन्दलक्षणम् परमाकाशम् तद्ब्रह्म तापत्रयाते षड्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशाते षड्भावविकारशून्यम् एवम् आदि सर्वं विलक्षणम् निरुपप्लवं ज्योतिराभ्यनन्तरं सर्वमायातेतमप्रत्यग एकरसम् अद्वितेयम् तज्ज्योतिरेकम् अद्वितेयम् सर्वकल्पनातेतम् ध्रुवम् अक्षरम् एकम् सदा चकास्ते सच्चिदानन्दम् यत्तत्सत्यम् विज्ञानम् आनन्दम् निष्क्रियम् निरञ्जनम् सर्वगतम् सुसूक्ष्मम् सर्वतोमुखनिर्देश्यम् अमृतम् निष्कलम् एकम् अद्वैतं निष्कलं निष्क्रियम् शान्तं निरतिशयम् अनामयम् अद्वैतं चतुर्थम् ब्रह्मविष्णुरुद्रातेतम् एकम् आशास्य अद्वयम् अनाद्यन्तम् अशेष वेदवेदान्तवेद्यं निर्देश्यम् अनिरुक्तम् अप्रवच्यम् अशास्यम् अद्वैतं चतुर्थम् सर्वाधारम् अनाधारम् अनिरिक्ष्यम् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् तथा रसं नित्यमगन्धवच्छत् यत् परं विज्ञानाद्यद्वरिष्ठं प्रजानां यदर्च्यणुभ्योऽ च बृहच्च तद्दिव्यम् अचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाते एतज्ेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् अघोषम् अव्यञ्जनम् अश्वरं च यत्तालुकण्ठोष्टमनासिकं च यत् अरेफजातम् उभयोष्मवर्जितं यदक्षरं न क्षरते कथञ्चित् अगोचरं मनोवाचाम् अवधूतादिसंप्लवम् सत्तामात्रप्रकाशैकप्रकाशम् भावनात्यैकतम् अहेयम् अनुपादेयम् असामान्यविशेषणम् ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् निष्कलं निर्मलं शान्तं सर्वातेतं निरामयम् शून्यम् नापि चाकारि न दृश्यम् नापि दर्शनम् चिन्मात्रम् चैत्यरहितम् अनन्तम् अजरम् शिवम् चैत्यानुपातरहितम् सामान्यनश्च सर्वगम् अनामयम् अनाभाषम् अनामम् कम् अकारणम् मनोवचोभ्याम् अग्राह्यं पूर्णात् पूर्णं सुखात् सुखम् द्रष्टुदर्शनदृश्यादिवर्जितं तदिदं पदम् शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् अप्रमाणम् अनिर्देश्यम् अप्रमेयम् अतेन्द्रियम् निर्लेपकं निरापायं कूटस्थम् अचलं ध्रुवम् सद्घनं चिद्घनं नित्यमानन्दघनम् अव्ययम् प्रत्यगे करसं पूर्णम् अनन्तं विश्वतोमुखम् अहेयम् अनुपादेयं मनादेयम् अनाश्रयम् शुद्धम् बुद्धम् सदा मुक्तम् अनामकम् अरूपकम् सङ्कल्पसंक्षयवशद्गलिते चतु चित्ते संसारमोहम् एका गलिता भवन्ति स्वच्छम् विभाति शरदेव खम् आगतायां चिन्मात्रम् एकं जम् अद्य अनन्तम् अनन्तः इति सार्धान्तिकनपुंसकलिङ्गस्वरूपवाक्यानि एकोनचत्वारिंशत् चतुर्दशं प्रकरणं समाप्तम्